नमो भगवते य अथ श्रीनारायण नारदसंवादे पुरुषोत्तममासमा श्रवणफलकथनं कांस्य नारदो मुनिः किञ्चित् प्रष्टुमना विप्रा श्रीनारायण उवाच एकैतद्व्रतं ब्रह्मन्नचीकर तदा पृच्छन् महादेवं किन्देयं दानमुत्तमम् येन सम्पूर्णतां याति व्रतं मे पौरुषोत्तमम् तन्मे बददया सिन्धो सर्वेषां हितसे सर्वेषां हितहितवी तच्छ्रुत्वा मनसि ध्यात्वा ध्यायन् श्रीपुरुषोत्तमम् उमाजिगमजि गदच्छम्भो सर्वलोकहितैषिणीं श्रीमहादेव उवाच न शक्यं किञ्चिदेवास्ति दानं श्रीपुरुषोत्तमे व्रतपूर्णविधिं कर्तुम् अपर्णे छन्दसि क्वचित् यद्यद्दानं गिरिसुते ह्युत्तमं परिकीर्तितं श्रीकृष्णवल्लभे मासि तत्सर्वं गौणताङ्गतं तस्मादेतादृशं दानं नैवास्ति क्वापि येनते येन ते व्रतसम्पूर्तिर्भवेच्छी पुरुषोत्तमे पुरुषोत्तममासेऽस्मिन् व्रतसम्पूर्णहेतवे पुटाकारं तदर्हं तदरहं न नशक्यं तत्तु केनापि दातुं क्वापि वराननी तस्मादेतत्प्रतिनिधिं कृत्वा कांस्य सम्पुटं तन्मध्ये पूरयित्वैव पूपान्स्त्रिंशन्मितान्मुदा सप्ततन्तुभिरावृत्य सम्पूज्य विधिवत्प्रिये देयं विप्राय विदुषे व्रतसम्पूर्तिहे तवे एवं त्रिंशन्मितान्येव देयानि सति वैभवे इत्याकर्ण्यवचो रम्यं धूर्जटैरुपकारकम् सर्वलोकहितैषिणी त्रिंशत्कांस्यानि विद्वद्भ्यः सम्पुटानि व्यतीर्यसा पूर्णं व्रतविधिं कृत्वा नारदूत उवाच इत्याकर्ण्यमुनिर्विप्रां नारायणवचोमृतं पुनराहातितृप्तोऽसौ नाम नामं नामं पुनपुनह। नारद उवाच सर्वेभ्यः साधनेभ्योऽयं मासः श्रीपुरुषोत्तमः वरीयान् निश्चयो मेद्य श्रुत्वा माहात्म्यमुत्तमम् श्रुत्वापि पिजायते भक्त्या महापापक्षयो नृणां किं पुनः श्रद्धया कर्तुर्विधिना चेति मे मतिः अतः परं न किञ्चिन्मे श्रोतव्यमवशिष्यति पीयूषात्यन्तसन्तप्तो पीयूषात्यन्तसन्तृप्तो नान्यत्तोऽयं समीहति सूत उवाच इत्युक्त्वा विरतो विप्रौ नारदो मुनिसत्तमः अनीनमत्पादपद्मं पुनर्पुरातनमुने परं भारते जनुरासाद्य पुरुषोत्तम न सेवन्ते न शृण्वन्ति गृहासक्ता नराधमा गतागतं भजन्तेऽत्र दुर्भगा जन्म जन्मनि पुत्रमित्रकलत्राप्तवियोगाद्दुःखभागिनः अस्मिन् मासे द्विजश्रेष्ठा नासच्छास्त्राण्युदाहरेत् न ना स्वपेत् परशय्यायां नालपेद् वितथं क्वचित् परापवादान्न श्रूयात् परापवादान्न ब्रूयात् न कथञ्चित् कदाचनं परान्नं च न भुञ्जीत न कुर्वीत परक्रियां वित्तशाठ्यमकुर्वाणु दानं दद्यात् द्विजातये विद्यमाने धने शाठ्यम् कुर्वाणो रौरवं व्रजेत् दिने दिने द्विजेन्द्राय दत्वा भोजनमुत्तमं दिवसस्याष्टमे भागे प्रतिभोजनमाचरेत् धन्यास्ते पुरुषालोके ये नित्यं पुरुषोत्तमम् अर्चयन्ति विधानेन भक्त्या प्रेमपुरःसरम् इन्द्रद्युम् नः शतद्युम् नो यौवनाश्वो भगीरथः पुरुषोत्तममाराध्य तस्मात् सर्वप्रयत्नेन संसेव्यः पुरुषोत्तमः सर्वसाधनतः सर्वार्थफलदायकः गोवर्धनधरं वन्दे गोपालं गोपरूपिणं गोकुलोत्सवमेषानं गोविंदं गोपिकाप्रियं कौण्डिन्येन पुरा इमं मन्त्रं पुनः पुनः जपनमासं नयेद्भक्त्या पुरुषोत्तममाप्नुयात् ध्यायेन्नवघनश्यामम् द्विभुजं मुरलीधरं लसत्पीतपटं रम्यं सराधं पुरुषोत्तमं ध्यायं ध्यायं नयेन्मासं पूजयन् पुरुषोत्तमम् एवं यः कुरुते भक्त्या स्वाभीष्टं सर्वमाप्नुयात् गुह्याद् गुह्यतरं चैतन् न वाच्यं यस्य कस्यचित् मयापि कथितं नैव कस्याप्यग्रे तपोधनाः श्रोतव्यमेतत् सततं पुराणम् अभीष्टदं पावनमादरेण श्लोकैकमात्रश्रवणेन पुंसाम् अघानि सर्वाणि निहन्ति नूनं गंगादि सर्वतीर्थेषु मज्जतो यत्फलं भवेत् तत्फलं शृण्वतस्तस्य माहात्म्यं श्रीहरेर्मुदा इलां प्रदक्षिणीकुर्वन् यत्पुण्यं लवते नरः तत्पुण्यं शृण्वतस्तस्य माहात्म्यं पौरुषोत्तमम् ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो वसुधाधिपः वैश्यो धनपतिर्भूयात् क्षुद्रः सत्तमतां लभेत् येने किरातहूणाद्याः पशुचर्यापरायणाः ते सर्वे मुक्तिमायान्ति श्रुत्वा माहात्म्यमुत्तमं पुरुषोत्तममाहात्म्यं लेखयित्वा द्विजन्मने सम्भूषवस्त्रभूषाभिर्विधिनाय प्रयच्छति कुलत्रयं समुद्धृत्य गोलोकं याति दुर्लभं यत्रास्ते गोपिका वृन्दैर्वेष्टितः पुरुषोत्तमः लिखित्वा धारयेदि यस्तु गृहे माहात्म्यमुत्तमं तद्गृहे सर्वतीर्थानि विलसन्ति निरन्तरं मासोत्तमस्य महिमानमनन्तपुण्यं श्रुत्वा सुविस्मितधियो मुनयश्च सर्वे ऊचुश्च सुतनयं विनयेन विश्व सेवनविधौ निपुणानितान्तं ऋषय ऊचुः सूतसूतमहाभाग धन्योऽसि त्वं महामते त्वन्मुखामृतपानेन कृतार्था स्मो वयं भृशं चिरञ्जीव सदासूत पौराणिकशिरोमणि अस्तु ते शाश्वतीकीर्तिर्जगत्पावनपावनी तुभ्यं प्रदत्तं निमि निमिषालयस्थैर्ब्रह्मासनं पूज्यतमं मुनीषैः त्वदीयवक्त्रां बुजनिर्गतश्रीमुकुन्दवार्तामृतपानलोलैः विष्टरश्रवस एव विचित्रां विष्टरश्रवस एव पवित्रां यावदेव वितता भुवि कीर्तिः तावदत्र मुनिवर्य समाजे श्रीर्हरेर्वदकथां कमनीयाम् इत्थं द्विजासीर्वचनं प्रगृह्य प्रदक्षिणीकृत्य द्विजान् समस्तान् नत्वा गमद्देव नदीं स्वकीयं कृत्यं विधातुं स अन्योन्यमुचुर्निमिषालयस्थं वरिष्ठमाहात्म्यमिदं पुराणं मासस्य दिव्यं पुरुषोत्तमस्य समीहितार्थार्पणकल्पवृक्षम् इति श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे पुरुषोत्तममासमाहात्मे श्रवणफलकथनं नाम एकत्रिंशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु